ताम् क्षमान् तादृशीम् कृष्णे कथमस्मद्विधस्यजेत् यस्याम् ब्रह्म च सत्यञ्च यज्ञालोकांश्चधिष्ठिताः क्षन्तव्यमेव सततम् पुरुषेण विजानता यदा हि क्षमते सर्वम् ब्रह्म तदा क्षमावतामयल्लोकः परश्चैव क्षमावताम् इह सम्मानमिच्छन्ति परत्र च शुभाङ्गतिम् येषाम् मन्युर्मनुष्याणाम् क्षमयाभिहतः सदा तेषाम् परतरे लोकास्तस्मात् क्षान्तिः परामता इति गीताः काश्यपेन गाथा नित्यम् क्षमावताम् श्रुत्वा गाथा क्षमा यास्त्वन्तुष्यद्रौपदी कृष्णश्च देवकी पुत्रः आचार्यो विदुरक्षत्ता शममेव वदिष्यतः कृपश्च सञ्जयश्चैव शममेव सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च पितामहश्च नो व्यासः वदति नित्यशः एतैर्हि राजा नियतम् प्रति राज्यम् दातेति मे बुद्धिर्न चेल्लोभान् न कालो यन्दारुणः प्राप्तो भरतानामभूतये निश्चितम् मे सदैवैतत्पुरस्तादपि भाविनि सुयोधनो नार्हतीति क्षमामेवम् न विन्दति अर्हस्तत्राहमित्येवन्तस्मान् माम् विन्दते क्षमा एतदात्मवताम् वृत्तमेष सनातनः क्षमा चैवानृशंस्यञ्च मञ्जसा इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीयुधिष्ठिरसंवादे एकोनत्रिंशोऽध्यायः